मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं तर्टि टु गजासुरसैन्यवधं श्रीगणेशाय नमः मुद्गल उवाच एकदातं सभायां वै दैत्यनायकं दैत्यनायकम् आययौ सहसा तत्र नारदो कौतुकीमुनिः दैत्ये मानिदो दक्षतामुवाच महामुनिः शृणु दैत्याधिपप्राज्ञा हितं ते वचनं महत् अरण्ये मुनिभिर्देवैर्गणेशो भक्तिभाविदः आराधितोऽवधार्थं ते पराशरसुदो भवत इत्युक्त्वा प्रययौ तस्मानारदो दिव्यदर्शनः दैत्यो रोष समाविष्टो देवर्षीणां वधेरधः आययौ यत्र देवाश्च मुनयत्संस्थिता कलः दैत्यसमावृद सर्वैर्महाबल पराक्रमैः धृत्वा स सकलान् देवान् कलः तान् हन्तुं शस्त्रमादत्ते तावत्तायर्विघ्नपस्मृतः स्मृतमात्रो गणाध्यक्षो बुद्धिभेदं चकारः दैत्यस्य तेन दैत्येन मानसे धारिदं महद ममाधीना इमे विप्रा देवाश्चैव येषां दण्डप्रकर्तव्यो येन सत्त्वं गमिष्यति पश्चात् हनिष्यामि बलात् एवं निश्चितसङ्कल्पस्थानुवाच गजासुरः गजासुरः उवाच देवामुनिगण सर्वे वच श्रुण्वन्तु मेहिदं कर्तव्यं जीवितुं तच्च यदीक्षध च सत्वरैः कर्णौ सम्पीड्य पाणिभ्यामुत्तमाङ्गं धरातले नित्यमास्फालयध्वं वै मम सन्निधौ तदा मुञ्जामि देवेशान् नान्यधा मुनिसत्तमान् शिरच्छेदं स सर्वेषां करिष्यामि न संशयः भवद्भिप्रार्थितो देवो गणेशो देववल्लभः पराशरसुदो जाधकुरुध्वं तेन संयुताः एवं तस्य वच श्रुत्वो वाच विष्णुरादराद गणेशं मनसा स्मृत्वा सामयुक्तं त्वया ह्यः कथितो दण्डो वयं तं करवामहै सर्वान् देवमुनीन्मुञ्च गमिष्यामो गजाननं आनयित्वा च देवेशं तेन सार्धं प्रयत्नतः त्वत्पादकमले नित्यं करिष्यामो यथा कथं गणेशमायया भ्रान्दो दैश्य राजप्रतापवान् सकलान् मोचयामासेवान् ऋषिसमन्वितान् दिवसे पञ्चमे प्राप्ते नागदामे गदा मे प्रसन्निद्धौ तदा सर्वान् हनिष्यामि गणेशेन समन्वितान् तदेत्युक्त्वा गदा सर्वे पराशरगृहं प्रति गजाननं तत्र दृष्ट्वा प्रणे मोद्दण्डवत्क्षितौ पराशरो विस्मितोऽसौ पूजयामास स्वयं सहसा सकलान् प्राप्तान्मुनीन् देवान् विशेषतः पराशरेण संयुक्ता सर्वेते ते कथयंस्तदा स्तुत्वा च विविधैस्तोत्रैर्गजासुरविचेष्टितं कर्णौ सम्पीड्य देवेश शिरस्पालनमञ्चसा कथं कुर्मो सुरस्याग्रे चरणा वनदा प्रभो नीचस्य नमनाद्देवमरणं हि वरं स्मृतं तस्मात् त्वं जहि देवान् वा मुनीन् दैत्यान् गजाननमुद्गल उवाच देवादीनां वच श्रुत्वा स्मित्वा तानब्रवीत्प्रभुः भक्तवत्सलभावेन यन्द्रे तत्स प्रजापदे गणेश उवाच चिन्ता नैव प्रकर्तव्या कनिष्याम्यसुरं क्षणाद् कुरुध्वमेव चोरम्यं सर्वेषां सुखदं भवेद दैत्येन्द्रेण प्रकथितो दण्डये व प्रियः मम पादस्य सामीप्ये कुरुध्वं सर्वभावतः तदा दैत्यमहाघोरं हनिष्यामि प्रपश्यतां भवतां नात्र सन्देहः क्षणार्थेन च सप्तमः गणेशस्य वचोरम्यं श्रुत्वा देवर्षिसत्तमाः परस्परं मुखालोकम् अकुर्वन् स्मितपूर्वकं तत्र शम्भुरुवाचेदं वचनं हितकारकम् अस्माकं कुलदेवोऽयं तस्मात् कुर्वन्तु सप्तमाः इत्युक्त्वा शङ्करस्तत्र पाणिभिः स्रवसि स्वयं पीडयित्वा शिरोभिस्तच्चरणे ध्वनिमाचरद मृदुर्मधुररूपसशब्दश्च शिरसा भवद श्रुत्वा गजाननो हृष्टो बभूवपरमं तदा ततो विष्णवादिभिर्देवैर्भृग्वादिप्रमुखैस्तथा मुनिभिश्च कृतं दक्ष ततोऽत्यन्तं मुमोदसः भूत्वादु मूषकारूढो चतुरायुधभूषितः गजासुरवधार्थाय ययौ गणपतिः स्वयं महिषाख्ये पुरे गत्वा सिंहनादं चकारसः तेन भ्रान्ताश्चासुरास्ते गज तत्र गुल्मस्ता असुरा चिन्नभिन्नीकृताङ्गा वै शसंसुदेवचेष्टितम् असुरा ऊजुः गणेशेन समायुक्ता देवामुनिगणा प्रभो आय यो योद्धुमत्यन्तं मदयुक्ता गजासुरा तेषां वचनमाकर्ण्य गज दैत्यप्रदापवान् सर्वानाज्ञापयामास दैत्यान् सज्जीभवन्द्विधि स्वयं सुसज्जिदूदारूढ़ अनुद्यसैन्य दैत्यास्ते निर्युपुराद अपारसयाुक्त तम ददर्श गजास गजानन प्रसन्ना काल से भयदायक तद गजास कौपा दैत्याज्ञापय तदा संहरध्वंसुरान् सर्वान् मुनीन् यक्षादिसंयुतान् दैत्येन्द्रेण समाज्ञप्ता असुरा जयशानिनः अस्त्रैशस्त्रैश्च ते देवान् पीडया मासुरोजसा देवा क्रोधसमाविष्टा मरणे कृतनिश्चयाः दैत्यान् प्रहरणैर्जघ्नश्शास्त्रैर्नानाविधैस्तदा दैत्यानां चैव देवानां युद्धं परमदारुणं बभूवतु मुलं तत्र परस्परविनाशनम् आशृह्नदी प्रवृत्ताजमहौका पीरमोहिनी भग्ना दैत्यगणस्तत्र प्रहारपरिपीडिताः त्यक्त्वा दैत्यगणा लज्जां पालयन्त दिशो दश तद् दृष्ट्वा दैत्यराजस्तु तदो ततो दैत्याधिवाक्रूराप्रधानप्रमुखम् आययो देवसेनां ते निजघ्नुश्च महाबलाः तद् इन्द्रादिभिस्ते वैरणं कृत्वा सुदारुणं निगधामूर्च्छिदा के जिद्रणे भूमौ निपातिताः आहा दैत्यगणा कृत्वा पलायन्तदिशो दश दैत्यराजस्य विस्मयं परमं ययौ विपरीतं मया दृष्टं वह्निषितो यथा भवत तथा देवैर्मदीयेयं सेनासर्वापराजिता एवं मनसि सन्तप्तक्रोधारुणविलोचनः रथाजूढस्वयं योद्धुमाययौ स गजासुरः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे जरी गजासुसैन्यवधो ओम